अथ एकादशम् दशकम् क्रमेण सर्गे परिवर्धमाने कदापि दिव्यासनकादयस्ते भवद्विलोकाय भवद्विलोकाय प्रपेदिरे प्रपेदिरेमारुतमन्दिरेश मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापी मणिमन्दिरैश्च अनूपमम् तम् भवतो निकेतम् मुनीश्वराः प्रापुरतीत भवद्दिदृक्षून् भवनं विवीक्षून् द्वास्थौ जयस्तान् विजयोऽप्यरुन्धाम् तेषाम् चित्ते पदमापकोपः सर्वम् भवत्प्रेरणयैव भूमन् वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवाम् दैत्यगतिम् भजेतम् इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्विति नेमतुस्तान् तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या भुजाक्ष बुजाक्ष खगेश्वराम् सार्पितचारु बाहुरानन्दयम् स्तानभिराममूर्त्या प्रसाद्य गिर्भिस्तुवतो मुनीन्द्रानननन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपम् न्यगादीः त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वः कशिपुः किलैकः प्रतीतः उभौ तयोर्हिरण्याक्षमः सुरेन्द्रो रणाय धावन्नन वप्तवैरी भवत्प्रियाम् क्ष्माम् सलिले निमज्ज्य चचार ततो जलेशात्सदृशम् भवन्तम् निशम्य बभ्रामगवेषयंस्त्वाम् निरुन्धिरोगान् मरुदालयेश इत्येकादशम् दशकम्